हरि श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे द्वाविंश सर्गः लक्ष्मणं प्रबोधयता श्रीरामेण स्वीये स्वी वसे दैवम् एव कारणम् इति प्रतिपादनम् अभिषेक सामग्रीम् उपसारयितुम् आदेशदानं च अथ तं व्यथयादीनम् सविशेषमर्चितम् स सरोषं नागेन्द्रम् रोषविस्फारिते क्षणम् सुरुदं रामः सौमित्रिम् सुहृदम् भ्रातरम् प्रियम् वाचेदम् स धैर्येण धारयन् सत्वमात्मान् निगृह्य च धैर्यम् आश्रित्य केवलम् अवमानम् निदस्ययेन मुत्तमं गुही हर्षम उपकृप्तम अभिषेका सौमित्रेय यषेका मम संभार निवृत्ये तो संभार संभ्रम यहाँ भिषेका मानसं परितप्यते माता न सा यथा न स्यात् सविशङ्का तथा कुरु तस्याशङ्का मयम् दुःखम् मुहूर्तम् अपि नोत्सहे मनसि प्रतिसञ्जातम् सौमित्रेऽहम् उपेक्षितम् न बुद्धिपूर्वम् न बुद्धम् स्मरामि हैकदाचन मातॄणाम् वापि दुर्वाहम् कृतम् वल्पं च विप्रियम् सत्य सत्याभिसन्धश्च सत्या नित्यं सत्य पराक्रमः परलोकभयाधीतो निर्भयोस्तु पिता मम तस्यापि भवेदस्मिन् कर्मणि प्रतिसम्भूते नेति मनस्ताप तस्य तापस्तपेच माम् अभिषेक तस्मात् संहृत्य लक्ष्मण अन्वगेहाममिच्छामि वनम् गन्तुम् इतः पुर मम कुर्त सूतं कृतकृत्या नृपात्मजा सूतम् भरतमव्यग्रम् अभिषेच यतान्ततः मयि चीराजिनधरे चटामण्डलधारिणी गतेरण्यम् च कैकेय भविष्यति मनसुखं सुखम् बुद्धिप्रणीता येनेयम् मनश्च सुसमहितम् तं नो नार्हामि सङ्क्लेष्टुम् प्रव्रजिष्यामि माचरम् कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने राज्यस्य च पुनरेव निवर्तते कैकेय्या प्रतिपत्तिर्हि कथञ्चान्म वेदने यदि तस्य न भावोऽयम् कृतान्त विहितो भवेत जानासि हि यथा सोम्य न मातृषु ममान्तरम् भूतपूर्वम् विशेषो वा तस्या मरयि सुतेऽपि वा निवृत्यर्थै प्रवासार्थै च दुर्वचै उग्रैर्वाक्येरम् तस्य नान्यैव समर्थये कथं प्रकृति सम्पन्ना राजपुत्री तथा गुण बुर्यात्सा कृतेव स्त्री मत्पीड्यम् भक्तृसन्निधौ यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते व्यक्तम् मयि च पतितो हि विपर्ययः कश्च देवेन सौमित्रे योद्धुम् उत्सहते पुमान् यस्य नो ग्रहणम् किञ्चित् वकर्मणोऽन्यन्न दृश्यते सुखदुःखे भयक्रोधौ लाभालाभो भवभो यस्य किञ्चित् तथाभूतम् ननु दैवस्य दै कर्म तृशयोऽपि दै वृतपसौ उत्सृज्य नियमान् तीव्रान् भष्यन्ते काममन्युभि असङ्कल्पितमेवेह यदकस्मात् कर... प्रवर्तते निवर्त्यारब्धमारम्भे ननु दैवस्य कर्म तत् एतया तत्त्वया बुद्ध्या संस्ताभ्यात्मानमात्मन व्यहतेऽप्यभिषेके मे परितापो न विद्यते तस्मात् परितापः तमपि अनुविधाय माम् प्रतिसंहर्य क्षिप्रम् अभिषेक अभिषेचन किम् ग्रियाम् एभिरेव घटै सर्वे अभिषेचन संवृतै मम लक्ष्मणतापस्य व्रतस्नानम् भविष्यति अथवा किम् मयैतेन राजद्रव्यम् मयेन तु उद्धृतम् मे स्वयम् तोयम् वृदादेशम् करिष्यति मा च लक्ष्मणसन्तापम् काशी विपर्यये राज्यं वा वनवासो वा वन महोदय न लक्ष्मणास्मिन्नम राजविघ्ने माताय वी यस्य भिशङ्गितव्य दैवाभिपन्नान पिता कथञ्चिन् जानासि दैवं हि तथा प्रभवन् इत्यार्थी श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे द्वाविंश सर्गः श्रीसीतारामचन्द्रारणमस्तु